श्रीहरये नमः अत एकत्रिंशोऽध्यायः मैत्रेय उवाच तथ वोत्पन्नविज्ञाना स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहान् दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा प्रतीक्षां दिशिवेलायां सिद्धो भूत्यत्र जाझलिहे तान् निर्जितप्राणमनोवचोदृशो जितासनान् सान्तसमानविग्रहान् परे मले ब्रह्म नियोजितात्मनाः सुरासुरेभ्यो ददृशे स्म नारदः तमागतं तमुत्थाय प्रणिपत्य अभिनन्द्य च सुकासीनं यदा देशं स्वागतं ते सुरषेद्यष्ट्यानो दर्शनं गतः तव सङ्क्रमणं ब्रह्मन् अभयाय यता रवेः यदा धिष्ठं भगवता शिवेन अधोक्षजेन च तद्गृहेषु प्रसक्तानां प्रायशक्षपितं क्षपितम् प्रभो तन्न प्रत्योदयात्यात्मज्ञानम् तत्त्वार्थदर्शनम् येनाञ्झसा धरिष्यामो दुस्तरं भवसागरम् मैत्रेयौ उवाच इति प्रचेतसां मृष्टो भगवान् नारधो मुनिः भगवती उयुत्तमश्लोक आविष्टात्मा ब्रवीन्रपान् नारदो वाच तज्जन्मतानि कर्माणि तदायुस्तन्मनोवचः नृणाङ्गेन्यहविस्वात्मा सेव्यते हरिरीश्वरः किं जन्मभिस्त्रिभिर्वेखसौक्लसावित्रैयाज्ञिकैः कर्मभिर्वात्रयि प्रोक्तैः पुंसोऽपि विबुधायुषा श्रुतेन तपसा वा किं वचोभिश्चित्तौ वृद्धिभिः बुद्ध्या वा किं निपुणया फलेनेन्द्रियराधसा किं वा योगेन साङ्ख्येन न्यायस्वाध्याययोरपि किं वा श्रेयोर्भिरन्यैश्च नयत्रात्मप्रधोहरिः श्रेयसामपि सर्वेषां ध्यात्मा ह्यवधिरर्थतः सर्वेषामपि भूतानां हरिरात्मात्मधः प्रियः यथा तरोर्मूलनिशेषनेन तृप्यन्ति तत्स्कन्तभुजोपसाघाः प्राणोपहाराश्च यदेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्य यथैव सूर्यात् प्रभवन्ति वारः पुनश्च तस्मिन् प्रविशन्ति काले भूतानि भूमौ तिरजंगमानी तथा हरावेव गुणप्रवाहः एतत्पदं तज्जगतात्मनः परं सकृत् विभातं सवितुर्यथा प्रभा यता सवो यथा स वो जाग्रतिसुप्तशक्त्यो द्रव्यक्रियाज्ञानपिता भ्रमाद्ययः यथा नभस्य भ्रमतः प्रकाशा भवन्ति भूपा न भवन्ति अनुक्रमात् एवं परे ब्रह्मणिशक्तयस्त्वमो रजस्तमसत्त्वमितिः प्रवाहः तेनैकम् आत्मानम् अशेष देहिनां कालं प्रधानं पुरुषं परेशं स्वतेजसाध्वस्तगुणप्रवाहम् आत्मैकभावेन भज त्वमद्धा दयया सर्वभूतेशो सन्तुष्ट्यायेन केन वा सर्वेन्द्रियोपशान्त्या तुष्यत्यासु जनार्दनः अपहतसकलैक्षणाम् अमलात्मनि अविरतमेतितभावनो बहुतः निजनवसखत्वम् आत्मनो यन्त सरदि चित्रवत् अक्षरस्सतां ह्ये न भजति कुमनीक्षिणां सयुज्ञां हरिरतनात्मतनप्रियो रसज्ञः श्रुतधनकुलकर्मणां मधैर्ये विदधति िनश्च द्विपदपतीन् विबुधांश्च यत् स्वपूर्णः नभजि निजभृत्यवर्गतन्त्र कथममुम् उद्विसृजेत् पुमान् कृतज्ञः मैत्रेय उवाच इति प्रचेतसो राजन् अन्याश्च भगवद्गथाः श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः तेऽपि यशोलोकमलापहं हरेर्निशं यतत्पादं ध्यायं तस्तद्गतिं ययुः एतत् ते विहितं प्रचेतसां नारदस्य संवातं हरिकीर्तनं ययेष उत्थानभतो मानवस्यानुवर्णितः वंशप्रियव्रतस्यापि निभोत निनृपसत्तमः यो नारदातात्मविद्यामधिगम्य पुनर्महे भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समघात् पदम् इमां तु कौशारविणोपवर्णितां शक्तानि संय अजितभात सत्कथां प्रवृद्धभावोऽष्टुकालो कुलो मुनेर्दधारमूर्ध्नाचरणं कृधा हरेः पितुर उवाच सोऽयमद्य महायोगिन् भवता करुणात्मना दर्शितस्तमसः पारो यत्र अकिञ्चनघोकरिः श्रीशुक उवाच इत्यानं यथमामर्त्यविदुरो गजसा वयं स्वानां दिदृशुः प्रययौ ज्ञातीनां निवृताशयः एतत्य शृणु यात्रा जन् राज्ञा हर्यर्पितात्मना आयुर्धनं यशस्वस्तिगतिम् ऐश्वर्यम् आप्नुयात् इति श्रीमद्भगवते महापुराणे परमहंस्यां संहितायाम् अष्टादशसाहस्यां संहितायां चतुर्थस्कन्ते प्रचेत उपाख्यानं धाम एकत्रिंशोऽध्यायः इति चतुर्थस्तन्तस्समात्वा हरिभों तस्तत् सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजिके जय